आनर्ताश्च तथा सर्वे नटा नर्तकगायनाः बहिर्निर्वासिताः क्षिप्रं रक्षद्भिर्वित्तसञ्चयम् सङ्क्रमाभेदिताः सर्वे नावश्च प्रतिषेधिताः परिखाश्चापि कौरव्यकालैः सुनिचिताः कृताः उदपानाः कुरु श्रेष्ठतथैवाप्यम्बरीशकाः समन्तात्क्रोशमात्रं चकारिता विषमा च भूः प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितं प्रकृत्या चायुधोपेतं विशेषेण तदा सुरक्षितम् सुगुप्तम् च सर्वायुधसमन्वितम् तत्पुरम् भरतः श्रेष्ठयथेन्द्रभवनम् तथा न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे अनुरथ्यासु सर्वासु चत्वरेषु च कौरवा बलं बभूव राजेन्द्रप्रभूतगजवाजिमत् दत्तवेतनभक्तं च दत्तायुधपरिच्छदं कृतोपधानं च तदा बलमासीन्महाभुजा न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः एवं सुविहिता राजन्द्वारका इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने पञ्चदशोऽध्यायः